स्वस्ति न अमिमीता वश्विना भगः स्वस्ति देव्यदितिरनिर्वणाः स्वस्ति पूषा असुरोदधातु नः स्वस्तित्यावापृथिवी सुचेतुना स्वस्तजे एवाजुमुपब्रवामहै सोमम् स्वस्ति भुवनस्यजस्पतिः बृहस्पतिम् सर्वगणम् स्वस्तजे एस्वस्तज आदित्या भवन्तु नः विश्वे एदेवानो अत्या स्तजे एवैश्वानरो वसुरग्निः स्वस्तजे देवा अवन्वृभव स्वस्तजे स्वस्ति नो आरुद्रः पात्वम् हसः स्वस्ति मित्रावरुणा स्वस्ति पथ्येरेवती स्वस्ति न इन्द्रश्चाग्निश्च स्वस्ति नो अदिते कृधि स्वस्ति पन्था वनुच देव सूर्या चन्द्रबसाविव पुनर्दताघता जानता सङ्गमे मही स्वस्त्यजनन्तार्क्ष्यवरिष्ठदेवीम् महद्भूतम् वायसन् देवतानाम् असुरघ्नबिन्दसखम् समत्सु बृहद्यशो नावमिवारुहे वा मा। अम्भोबुच माङ्गिरसम् गजन् च स्वस्त्या त्रेजम् मनसा च तार्ख्यम् प्रयतपाणिः शरणम् प्रपद्ये स्वस्ति सम् बाधेष्व भजन्नो अस्तु ॐ शान्तिान्तिशान्तिः